पातिते भीमसेन शल्ये कर्णे च शङ्किते शङ्किताः सर्वराजानः परिवरुर्ृकोदरम् ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ विज्ञायेतां क्व जन्मानौ क्व नीवासौ तथैव च को, को कर्णं शक्तो रणे अन्यत्र रामाद्रोणाद्वा पाण्डवाद्वा किरीटिनः कृष्णाद्वादेवकीपुत्रात् कृपाद्वापि शरद्वतः को वा दुर्योधनं शक्तः रणे तथैव मद्राधिपतिं शल्यं बलवतां वरं बलदेवादृते वीरात, पाण्डवाद्वावृकोदरात् वीराद् दुर्योधनाद्वान्यः रणे प्रियतामवहारोऽस्माद् युद्धाद्वृतात् ब्राह्मणा हि सदा रक्ष्याः सापराधापि नित्यदा अथैनानुपलभ्य पुनर्योत्स्याम हृष्टवत् तांस्तथा वादिनः सर्वान्